हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमदध्यात्मनारामायणे बालकण्डे तृतीय स्वर्ग श्रीमहादेव उवाच अथ राजा दशरथ श्रीमान् सत्यपरायणः अयोध्याधिपति वीर सर्वलोकेषु विश्रुतः सोनपत्यस्त्वदुःखेन पीडितो वसिष्ठं वसिष्ठम् स्वकुलाचार्यम् अभिवाद्येदमब्रवीत् स्वामिन् पुत्राय कथं मेथ्यु सर्वलक्षणलक्षिताय पुत्रहीनस्य मेराज्यं सर्वं दुःखाय कल्पते ततो ब्रवीत् वसिष्ठं भविष्यन्ति सुशासवे चत्वारि लोकपाला इवापराः शाता भट्टार्मानीय ऋष्यशृङ्गं तपोदनम् अस्माभिः सहितपुत्र कामिष्टिं शीघ्रमाचर तथेति मुनिमानीय मन्त्रिभिः सहितशुची यज्ज कर्म समारेभि मुनिभितकल्मषयी श्रद्धया हूय मानग्नौ तप्त जाम्बुनधप्रभे पायसं स्वर्णपात्रर्थम् गृहीतो वाचः व्यवट् गृहाण पायसं दिव्यम् पुत्रीयं देवनिर्मितं। निर्मितम् लक्षसे परमात्मानम् पुत्रत्वेन न संशयः इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधे वन्दे मुनिष रूलौ राजा लब्धमनोरथः वसिष्ठ ऋष्यशृङ्गाभ्याम् अनुज्ञातो ददोहवी कौसल्यायै स कैकेय्यै अर्धम् अर्धम् प्रयत्नतः ततः सुमित्रा संप्राप्ता जगृध्नु पौत्रिकम् चरुम् कौसल्या तु तो तस्यैवदान्वितः कैकेच स्वभागार्हं दीति समन्वितः उपभुज्य चरं सर्व समन्वितः देवता इव रेजुस्ता स्वभाव राजमन्दिरे दशमे मासिकौसल्या शुशुभे पुत्रमद्भुतं मधुमासे स्थिते पक्षे नवम्यां कर्कटे शुभे पुनर्व सूक्ष्म सहिते उच्चस्थे ग्रहपञ्चके मेषम्भूषणि सम्प्राप्ते पुष्टिवृष्टि समाकुले आविराशि जगन्नाथ परमात्मा सनातनः नीलोत्पल जलश्याम प्रीतः स चतुर्भिजय जल जय ऋणनेत्रान्त् स्फुरत् कण्डलमुन्मण्डितः सहस्रार्क प्रतिकाश किरीटी कुञ्चितारकः शङ्ख चक्रगदापन्ध परमाला विराजितः अनुग्रहाख्य हृत्सेन्दु सूचकस्मिन् चन्द्रिकः करुणारसम्पूर्ण विशालोत्पलोचन है, है।, है।, विशालोत है। श्रीवत्सहारकेयूर नु पुरादि है दृष्ट्वा तं परमात्मानं कौसल्या विद्मया कुलाय हा शु पूर्णनयनः नत्वा प्राञ्जलिरब्रवीत् कौसल्या उवाच देवदेव नमस्ते तु शङ्ख चक्रगदाधरे परमात्मा चितोन्नता पूर्णस्थं पुरुषोत्तमः पदञ्च गोचरम् वाचाम् बुद्ध्यादीन्नाम् अतीन्द्रियम् तद् वेदवादिनस्तत्ता मासरम् ज्ञानैक विग्रहम् तमेव मायया विश्वम् कृषी अवसि हंसि च तत्त्वादि गुणसंयुक्त तुर्य एव मलेसर करोषिव न कर्ता त्वम् शृणोषि न शृणोषि व पश्यसि व न पश्यसि अप्राणो हि अमनाशुद्ध इत्यादि श्रुति अब्रवीत् तव भूतेषु तिष्ठन्नपि न लक्ष्यसि अज्ञानध्वान्तचित्तानां व्यक्तैव सुमेधसां जठरे तव दृश्यन्ते ब्रह्माण्डा परमाणवः तं नमो रसम्भुवत इति लोकान् विलम्बसे भक्तेषु पारवश्यन्ते दृष्टं वेद्य रघुत्तमये संसारसागरे मग्ना पतिपुत्र धनादिषु भ्रमामि मायया तेद्य पादमूलमुपागता देव तद्रूपमे तन्मे सदा अवृणोतु न माम्माया तव विश्वविमोहिनी उपसं हर विश्वात्मन् अधो स्वरूपमलौकिकम् दर्शयस्व मानन्द बालभावम् सुकोरमलम् लितालिङ्गनालापै तरि श्याम्युत्कटम् तमः भगवानुवाच यद्यदि तं तत्र न्यथा अहं तु ब्रह्मणा पूर्वं भूमे भारापनुत्तये प्रार्थितो रावणं हन्तुम् मानुष्यत्वमुपागतः त्वया दश रसेनाहं तपसाराधित पुरा मत्पुत्रत्वाधिका तथा कृतं मनन्यते रूपम् प्राक्तनं तपसफलम् मद्दर्शनं विमोक्षाय कल्पते ह्यन्न दुर्लभम् संवादमावयोर्यस्तु पठेद्वा श्रुणयादपि स याति मम सारूप्यं मरणे मत् स्मृतिं लभेत् इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोदः विशालाक्षोतिसुन्दरः बालाय ऋण प्रतीकाशु लालिताय किल लोकपः अथ राजा दशरथः श्रुत्वा पुत्रो भवोत्सवम् आनन्दाल् नव भग्नोऽसौ आवयो गुरुणा सह रामम् राजीव पत्राक्षम् दृष्टाः गुरुणाय सम्पृतः गुरुणा दात कर्माणि कैकेयी चाथ भरतम् असुत कमलेक्षणाय सुमित्रायम यमौ जातो पूर्णेन्दूतदृशा नदौ तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ सुवर्णानि च रत्नानि वासांसि सुरभि शुभाय यस्मिन्द्रमन्ते मुनयो विद्येय ज्ञानविप्लवे तं गुरु प्राहरामेति रमणामयीत्यपि भरणाय भरतो नाम लक्ष्मणम् लक्ष्णान्वितम् शत्रुघ्नम् चतुहन्तारम् एवम् गुरु अभाषत लक्ष्मणो रामचन्द्रेण चत्रुघ्नो भरतेन च द्वन्द्वीभूय चलन्तोऽतो पायसान्शानुसारतः रामस्तु लक्ष्मणे नाथ विचरन् बाललीलया रमया मासपितरौ चेष्टितैर्मुग्धभाषितै भाले स्वर्णमयाश्व पर्णमुक्ता फलप्रभं कंठे रत्नमणि व्रात मध्यद्वीप नखितम् कर्णयो स्वर्णसम्पन्न रत्नार्जुन शताकुल्लुकम् शिञ्जान मणिमञ्जीर कटिसूत्राङ्गदैवृतं स्मितवक्त्राल्पदशनम् इन्द्रनील मणिप्रभम् अङ्गणेरिङ्गमाणं तं तर्णका ननु सर्वतः दृष्टादश रथो राजा कौसल्या ममुदे तदा भोक्ष्यमाणो दशरथो राम मेहीति च सकृ आह्वयत्यतिहर्षेण प्रेम्णानायाति लीलय अनयेति च कौसल्याम् अहसा सस्मिता सुतम् धावत्यपि न शक्नोति स्प्रष्टुम् योगि मनोगतिम् स्वयमायाति कर्दमाङ्कितपाणिना किञ्चिद् पुनरेव पलायते कौसल्या मासि मासि प्रकुर्वति वायनानि विचित्राणि सबलङ्कृत्य राघवम् अपोपान्मोदकन् कृत्वा कर्णश्चकुलिकस्तथा कर्णपूराश्च विविधान् वशवृद्धो च वायनम् गृहकृत्यम् तया त्यक्तम् तस्य चापल्यकारणात् एकदा रघुनाथोऽस् गतो मातरमन्त्रिके भोजनं देहि मे मात न श्रुतं कार्यशक्तय तथा क्रोधेन भण्डान् लगुणे नाहन तदा शिक्ष्य स्तम्पातयामास गव्यं च न बन्धीतकम् लक्ष्मणाय ददोराम्भ भरताय यथा क्रमम् शत्रुघ्नाय दधी दुग्धम तथा चूदे न कथि मात्रे हाषं कृप्वा प्रधाती आगतालोक्याथ तथर् पलायित कसल्या धावी प्रस्खलती पदे पदे रघुनाथं करे धृत्वा किंचिन्नोवाच भावि बल भाव स मन्दम् मन्दम् ते सर्वे लालिता मात्रा गाढमालिङ्ग यत्नतः एवम् आनन्दसन्दोह जगदानन्दकारकः बाया बाल कपुर्धृत्वा पु, पु, रमया मास दम्पती अथ कालेन ते सर्वे कौमारम् प्रतिपेदिरे उपनीतावसिष्ठेन सर्वविद्याविचारदा धनुर्वेदे च निरता सर्वशास्त्रार्थ वेदिनः बभूव जगता नाथ लीलय नररूपिण लक्ष्मणस्तु सदा रामम् अनुगच्छति सादरम् सेव्यसेवकभावेन चत्रुघ्नो भरतं तथा रामष्टापधरो नित्यम् तोणी बाणान्वित प्रभु अश्वारूढो वनं याति मृगयायै च लक्ष्मणः हत्वा दुष्टमृगान् सर्वान् पित्रे सर्वम् न्यवेदयेत् प्रातरुत्थाय सुस्त्रात् पितरोऽभिवाद्य च पौर्यकार्याणि सर्वाणि करोति विनयान्वितये बन्धुभिः सहितो नित्यम् भुक्तामो निरन्वहम् धर्मशास्त्र रहस्यानि शृणोति व्याकरोति च एवम् परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम् चक्रे विकारी परिणामहीनो विचार्यमाणेन करोति किञ्चित् इति श्रीमदध्यात्मरामायणे उमामेश्वरसुमरे वारकाण्डे तृतीयसर्गः श्रीसीतारामचन्द्रार्पणमस्तु